युधिष्ठिरौ वाच सर्वेषां महिषी राजन् द्रौपदीनो भविष्यति एवं प्रव्याहृतं पूर्वम् मम मात्रापि शाम्पते अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः पार्थे विजिता चैषा रत्नभूता सुतातव एष न समयो रत्नस्य सह भोजनं न च तं हातुमिच्छामः समयं राजसत्तमा सर्वेषां धर्मतः कृष्णा महिषीनो भविष्यति आनुपूर्वेण सर्वेषां गृह्णातु ज्वलनेकरान् नृपदौ एकस्य बह्व्यो विहिता महिष्यः कुरु नन्दना नैकस्या बहवः ते पतयः क्वचित् लोकवेदविरुद्धम् त्वम् नाधर्मम् धर्मविच्छुचिः धर्म कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशि युधिष्ठिरौ उवाच सूक्ष्मो धर्मो महाराजा नास्य विद्मो वयम् गतिम् पूर्वे शामानुपूर्व्येण यातम् वर्त्मानुयामहे न मे मतिः एवम् चैव वदत्यम्ब मम चैतन्मनोगतम् एष धर्मो ध्रुवो राजंश्चरैन विचारयन् मा शङ्का तत्र ते पार्थिव नृपदौ उवाच त्वम् च कुन्ती च कौन्तेय दृष्टद्युम्नश्च मे सुतः कथयन्त्विति कर्तव्यम् श्वः करवामहे वैशम्पायन उवाच ते समेत्य सर्वे कथयन्ति स्म भारत अथ द्वैपायनो राजन् अव्यागत्यद्यदृच्छया इति श्रीमहाभारते आदिपर्वणि वैवाहिकपर्वणि द्वैपायनागमने चतुर्नवत्यधिकशततमोऽध्यायः